अथर्वेदे अष्टमाष्टके तृतीयोऽध्यायः ओ देवानान्नु वयम् जाना प्रवोचामपि पन्यजा मुक्थेषु शस्यमानेषु यः पश्यादुत्तरे युगे ब्रह्मणस्पतिरेता सम् कर्मार इवाधमत् देवानाम् पूर्व्ये युगे सतः देवाना युगे प्रथमे सतः सदजायत तदाशा अन्वजायन्त तदुत्तानपदस्परि भूर्जज्ञ उत्तानपदो भुव आशा अजायन्त अतिथेदक्षो अजायत दक्षाद्पदितिः परि अतिर्ह्यजनिष्ठदक्षयारुहिता देवा अन्वजायन्त भद्रा अमृतबन्धवः यद्यवा अधः स लिलेषु संरब्ध अतिष्ठत अत्रा आहो नृत्यतामिव तीव्रो रेणुरमा आयत यद्दे एवायतयो एवा यथा भुवनान्यविन्वत अत्रासमुद्र आगूढमासूर्यमजभर्तन अष्टौ पुत्रासो अधितेर्ये जाता स्तम्भा अस्परि देवा उपप्रैत्सप्तमित्परामार्ताण्डमा आस्यत सप्तभिः पुत्रैरतिरुपप्रैः पूर्व्यञ्जयुगम् प्रजायै एमृत्यवे ए, ए त्वत्पुनर्मार्ताण्डमाभरत् जनिष्ठा उग्रः सहसेतुराय मन्द्र ओजिष्ठो बहुलाभिमानः अवर्धन्निन्द्रम् मरुदश्चित्र माता अभीवृते वदामः पदेन ध्वान्तात्मपित्वानुतरन्तगर्भाः हृष्वाते पादाप्रयजिकास्यमर्थम् राजाः उत ये चिरत्रा त्वमिन्द्रसालाभृकान्सहस्रमासन्दधिशे अश्विनामवृत्त्याः समनातोर्निरुपयासि यज्ञमाना सत्यासख्यायवक्षि वसाव्यामिन्द्रधारयः सहस्राश्विनाशोरतुमखानि मन्दमानरुतादधिप्रदाले सखिभिरिन्द्र इषिरेभिरर्थम् आभिर्हि माजा उपरस्विमागान्मिहः प्रतम्रा अपपत्तमांसि स न आमानाजिध्वस योऽन्यस्मा अवाहन्निन्द्र उषसो यथा विश्वैरगच्छः सखिभिर्निकामैः साकं प्रतिष्ठा हृद्या आजघण्ठ त्वम् च खण्ठ नृन्द्रासम् कृण्वानर्षयेविमायम् त्वम् च कर्तमनवेस्योनान्मथो देहवत्राञ्जसेवनान् त्वमेतानि पप्रिषेविनावेशान इन्द्रदभिषेकभस्तौ अनुत्वा चक्रम् यदस्यानिषत्तमुतो तदस्मै मध्विच्चच्छद्यात् पृथिव्यामतिशितम् यदोधःपयोगोऽपदधा ओषधेषु अश्वाति यायेति यद्वदन्त्योजसो एनम् न्योरियाय हर्म्येषु तस्थौ इन्द्रो अस्य वेद वयः सुपर्णा उपसेदुरिन्द्रम् प्रियमेधाषयोथमानाः अपध्वान्तमोर्मु हि पूर्तिचक्षुर्नुबुद्ध्या अस्मान्निधयेमबद्धान् वसूनाम् वाचलकृषय्यन् यज्ञैर्वारोदस्योः अर्वन्तो वाजेरयिमन्तः सातौ वनम् वाजे शुश्रुणम् सुश्रुतोऽधुः अव एषा मसुरो नक्षतद्याम् श्रवस्यता मनसा निं चक्षा आणा यत्र सुविदाय देवाद्यौर्नवारेभिः कृणवन्तस्मै इयमे एषा ममता आनाङ्गीः सर्वदा आताय कृपणम् परत्नम् धियम् च यज्ञम् च साधम् आदत्त इन्द्राय बः पनन् ताभिय पूर्वम् सकृत्वा इङ्गे पुरुपुत्रां महें सहस्रधाराम् रहरेन्दुदुक्षन् शी एव इन्द्रमवसे प्रणुभमनाः नदन्तमयन्तम् वृतन्योन् वृक्षणम् अघवानम् सुवृत्तिम् दत्ता यो वज्रन्दर्यम् पुरुक्षो यदि द्वानपुरुतमम् पुराषाळावृत्रयेन्द्रो नामाहान्यप्राः अचे एति प्रासहस्पतिस्तु विष्माञ्जलिष्पसि कर्तवेकरत्तत् वसुव आपो महिमानमुत्तमम् कारुर्वोजाति सदने विवस्पतः प्रसप्तसत्तत्रेधा हि चक्रमुः प्रसुत्परिणामति सिन्धुरोजसा प्रते एरतवरुणो जातवेपसः सिन्धो यद्वाजा अम् भूम्या अधिप्रवता आयासि साधुनायते एषामग्रम् जगता विरज्यसि विस्मनोयतते भूम्यौपन्यनन्दम् शुष्णमुदीर्तिहाधुना अभ्रादिमप्रस्तनयन्ति वृष्टयः सिन्धुर्यतेति वृषभोनरोरुपत् अभित्रा आसिन्धोऽ शिशुभिन्नमातरो अवाश्रा अर्षन्ति पयसेवधेनवाः राजे एव युद्धाः नयसित्तमिच्छिदाः सामग्रम् भवता विनक्षसि इमम् मे ए गङ्गे यमुने सरस्वतिषु तदृष्टोमम् स च तापरुष्ण्या अजिज्ञामरुद्रुधे वितस्तया जीकीयेषु सरिते यत्र सङ्गते तत्राप्लुता सोऽधिपतन्ति ेवै एतम् वा अम्विसृजन्ति धीयास्ते जनासो अमृतम् भजन्ते तृष्टा मया प्रथमै यातरे सजोता रसया आस्तेत्यांसिन्धो कुभया गोपतीम् कृमम् मे हत्ता सरथैयाभिलीयसे रत्ये से महिता प्रतिजा अंसि परथे रजा अंसि अतभ्या सिन्धुरपसा आवपस्तमा श्वानचित्रा वपुषेव दर्शताश्वा सिन्धुः सुरथा आ सुभासा आयिरण्यजे सुकृता वाजिनीमति पूर्णा आवती श्रीरमा आवत्युताधिवस्ते सुभगा आ मधुरुधम् सुखम् स्य महिमापनस्य आवर्जस ऊर्जािष्विन्दम् मरुतो रोदसी अनक्त उभे यथा नो अहनीस चाबुपासदः सदोपरि स्याद उद्भिः तदुश्रेष्ठम् सवनम् सुनोतनात्यो न स्य सवनम् विरे रतो यथा आपुरा वनवे गातुमश्रेत् गो अर्णशयित्वाष्ट्रे अश्वनिर्णिजिप्रेवद्धरेश्वराङ्मशिश्रयोः अपहतरक्षसो ओभङ्गुरावतस्कभायतनिरृतिम् सेधतावतिम् आनो ओरजिम् सर्ववीरम् सुनूतनदेवाव्यम् भरतश्लोकमद्रयः दिवश्चिदाभोमवत्तरेभ्यो विध्वनाचिदाश्ववत्तरेभ्यः योश्चिरासोपरभस्तरेभ्योऽग्नेश्चिलर्चवितुवृत्तरेभ्यः बुरन्तो नो यशसोत्पन्नसोऽग्रावाहाडो वाचा दिविता दिवितादिवित्मता नारो यत्र दुहते काम्यम् मध्वाः घोषयन्तो अभिलोको मिथस्कुराः सुन्वन्ति सोमम् रथिरासो अद्रजोधिरस्य रसम् कविशो दुहन्ति ते दुहन्त्यूथरुपसेचनायकन्नरो हव्यानमर्जयन्त आसभीः एतेन रस्वपसो अभूतनय इन्द्रायसु न सोममद्रयः वामम् वाहामम्बो दिव्यायथाम् नेवसुवसुवः पार्थिवायसुन अभ्रप्रषो न वाचापृषावसु हविष्मन्तो न यज्ञाविजानुषाः सुमारुतन्न ब्रह्माणमर्हसे एगणमस्तोष्येषान्न शोभसे श्रिये वर्याः सो अञ्जेन्द्रकण्ड्वरदस्मारुन्नपूर्वीरतिक्षपाः दिवः पुत्रा स एतानयेतरः दित्यासुस्थे अग्रानवाः मृदुः प्रये दिवः पृथिव्यानपरमहात्मनाथ्रे अभ्रान्नसूर्याः पायस्पन्दो न वीराः पनस्य वोः ऋषादसोनवर्याः अभिद्यवः युष्माकम् वृद्धे अपान्नयामनिमिधुर्यति न महेश्वधर्यते विश्वप्सुर्यज्ञो अर्वागयम् सु वप्रयस्वन्तो न सत्रा आगता यूयन्तोरुषु प्रयुजो न रश्मिविर्ज्योतिष्वन्तो न पासाद्युष्टिषु श्येनासोनः प्रेषसो रिषादसः प्रभासो नः प्रसिता सः परिपुरुषाः प्रयद्वाद्भेवरुदः परागाद्यूयम् महः विधानासो ओभस वोराज्यस्याराच्चिद्वेदस्सनुतर्युजोत य मरुद्यो अध्वरेष्ठा मरुद्भ्यो नमानुषोददा आशत् देवत्सभयो रथते सुवीरं सदेवा देवानामभि गोपीते अस्तु ते हि यज्ञेषु यज्ञासमुः आदित्येन नाम्नाशम् हविष्ठाः तेनो बन्धुरथ दूर्मनीषाम् महश्चयामन्नध्वरे च गानाः विप्राः सोनमन्नभिस्वाद्यो देवाव्यो यज्ञैः स्वप्नसः राजाः नौनचित्राः सुसन्दृशाः क्षिरेणान्नमर्याः अरेपसाः अग्निर्नयेऽभ्राजसा रुक्मोक्षसोराः सोनस्वजः सद्यभूतयः रद्धाता रोनज्येष्ठाः सुनीतयः सुशर्माः नौनसोमाः वाता आसो नयेथुनयोजिगर्तवो गीनान्न जिह्वापि रोहिणाः वर्मण्वन्धो न योधाश्वि एवन्तः पिद्रोणान्नशंसाः सुरातयाः रथाः नान्नये एरासना अभयोजिगीवांसो न शूराः अभिद्यवः वरे यो न मर्यागतपृषो अविस्त अर्कन्न दुष्टुभाः अश्वाः सोनये ज्येष्ठाः स आशवो ओतिधिशभो न रथ्यः सुदानवः आपो न निम्नैरुदभिर्तिगणवो ओविश्वरो ओपामङ्गिरसोऽनसामभिः द्रावाणोनसोनयः सिन्धुमातर आदर्धिरासोऽद्रयो न विश्वहाः शिशूलानक्रीडयः सुमातरो ओ महाग्रामो नयामन्मृतत्मिषा उषसान्न केतवो अध्वरश्रियः शुभय्यबोनान्यभिर्यन् सिन्धवो न हीयोभ्राजदृष्टयः परावतो न योजनानि ममिरे सुभागान्नो देवाः कृणुता सुरत्ना नस्मान्स्तोत्रोन्मरुतो वारुधानाः अधिस्तोत्रस्य सख्यस्य गातसनाद्धिवो रत्नधेयाः अपश्यमस्य महतो महित्तमर्त्यस्य मर्त्याः सुक्षु भृते सम्भरे ते असिंव देवप्स देभोर्यत्तः गुहाशिरोनिहितमृधकक्षे असिंवन्नत्ति जिह्वा यावनाहानि अत्राहण्यस्मै पद्भिः सम्भरन्त्युत्थानास्तानमसाधिभिक्षु प्रमातु प्रतरम् गुह्यमिच्छुहारो न विरुधः सर्पदुर्वीः ससन्नपक्वमविरक्षिदन्तम्वाम् समृप उपस्थेः अन्तः तद्वामृतम् रोरसी प्रब्रवीमिजायमानो मातरागर्भोः अस्ति नाहम् देवस्य मर्त्यश्चिकेताग्निरङ्गविचेताः स प्रचेताः यो अस्मा अन्नम् दृष्वा आदधात्याज्यैर्घृतैर्जुः पृश्यति तस्मै सहस्रमक्षभिचक्षे अग्नेः विश्वतः प्रत्यङ्गसि त्वम् देवे शृत्यश्च कर्ताग्नेः पृच्छामिनुत्त्वामविद्वान् अक्रे एडम् क्रीडन् हरिदत्तवेदम् अक्षदे मित्रो वसुभिः सुजातः समार्ते पर्वभिर्वा वृधानः अग्निः सप्तिम् वादम्भरम् ददात्यग्निर्वीरम् श्रुग्निम् गर्वनिष्ठाम् अग्निरोदसी वितरत्समञ्जन्नग्निर्नारेम् वीरपुक्षिम् पुरन्धिम् अग्नेरप्नसः समिजस्तु भद्राग्निर्महे रोदसी आविवेश अग्निरेकम् चोदयत्समत्स्वग्निर्वृत्राणि दयते पुरोणि अग्निर्हत्यञ्जरतः कर्णमावाग्निरभ्यो निरहत्यरोऽधम् अग्निरत्रम् घर्मपुरुश्चरन्तरग्निर्नृवेदम् प्रजया असृजत्सम् अग्निर्दाद्रविणम् वीरपे एषा अग्निरृषीयः सहस्रा आसनोति अग्निर्दिविहव्यमातता नाग्नेर्धामा आदिविभृता पुरुत्रा अग्निमुखैर्षयो विह्वयन्तेऽग्निम् न रोयामनिमाधिकासाः अग्निम्बयोः अन्तरिक्षे पतन्तोऽग्निः सहस्रापरियातिगो नाः अग्निम्विष एलदेवानुशीर्या अग्निम् अनुषोनुषो विधाताः अग्निर्गान्तर्वीम् पथ्याः अमृतस्याग्नेर्गव्योतिर्घृत आदत्ता अग्नये ब्रह्मर्भवस्ततक्षुरग्निम् महामवोचामासुवृत्तिम् अग्ने प्रावचरितारञ्यविष्ठाग्नेमहिद्रविणमाजजस्व यमाविश्वा भुवनानिजुःपदृशिरोधान्येदपितानाः स आशिषा द्रविणमिच्छमानः प्रथमच्छदवराविवेश किं स्विदासेदधिष्ठानमारम्भणम्वित्कथासेत् यतो भूमिम् जनयन् विश्वकम् मा विद्यामोर्णोन्महिला विश्वचक्षाः विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतो बाहुरुतविश्वतस्पात् सम्बाहुभ्यान्धमतिसम्भरत्रैर्द्या वा भूमे जनयन् देव एकाः किं स्विद्वनङ्गसवृक्ष आश्रयतोद्या वा आपृथिवे निष्टदृक्षो मने एषिणो मनसा पृच्छते दृदध्यदध्यतिष्ठद्भुवनानि धारयन् या ते धामा आनि परमाणि यापमायामध्यमा विश्वकर्मन् नुतेमा शिक्षासखिभ्यो हविषिष्वधा वः स्वयञ्जस्वधन्वम् वृधानः विश्वकर्मन् हविषा आवावृधानस्वयञ्जस्वपृथिवीमुद्या मुह्यन् वन्ये अभितो जना आसह्यास्माकम् नघवाः सूर्यरस्तु वाचस्पतिम् विश्वकर्माणमूतये मनोजुवम् वाजे ए अद्याहुवेम ो विश्वा आदिहवनानिजोषद्विश्वशम्भूरवसे साधु कर्म चक्षुषः पितामनसाहि चिरोघृतमे एने अजनन्नम् न माने यदेदन्ता अजदृहन्तपूर्वा आदिद्यावा आपृथिवी अप्रथेताम् विश्वकर्माभिमना आद्विहा आया धाताभिधाता परमोत सन्दृक् तेषा आविष्टानि सभिषापदम् धि यत्रा आसप्तऋषीन्पर यो नः पिता जनिता आ यो विधाता धामाः निवेदभुवनानि विश्वाः यो देवानान्नामधा एक एव तम्भृष्टम् तद्रविनं स्मार्षयः पूर्वे जनिता रोरभूना असूर्तेऽसूर्थेरजसि निषत्ते ये भूतानि समकृण्वन्निमानि परो दिवा पर एना पृथिव्या परो विद्गर्भम् रथमम् दध्र आपो यत्र देवाः समपश्यन्त विश्वेः तविद्गर्भम् रथमम् दध्र आपो यत्र देवाः समगच्छन्त विश्वेः अजस्य नाभावध्ये कमर्पितम् यस्मिन् विश्वानि भुवनानि तस्थो नमा जान्यद्युष्माकमन्तरम् बभोव निहारेण प्रारुताजल्प्याः च सुपुक्थचा सश्चरन्ति यस्ते ए मन्यो विषद्वज्रसायकसः ओदः पुष्यति विश्वमानुषक सा ह्या मदा समार्यन्तया युजा सहस्कृतेन सहसा सहस्वता मन्युरिन्द्रो अमन्युरेव स देवो मन्युरो तावरुणो जातवेलाः मन्युम् विष ईलते मानुशीर्याः पाहिनो अमन्यो तपसा सजोषा ीहि मन्यो तपसस्तवेयान्तपसा रुजाविजयि शत्रून् अमित्रहा वृत्रहातस्युहातविश्भावशून्याभरात्पन्नाः त्वम् हि मन्यो अभिभो अत्योजास्वयम्भोर्भामोः अभिमातिशाहः विश्वचर्षणिः दिस्तव सभुरिः सहा आवानस्मास्वो जःपुतना एतो अस्मि तवक्रत्वा आतमिषस्य दन्ता आमन्यो अक्रतुर्धीडाहम्स्वा तनोर्भदया आयमेहि अयम् ते अस्म्युपमेह्यरूपाम् कृते चीनः सहुरे विश्वसाय अन्योः वज्रिन्नभिमावृत्स्वहना आवदस्योऽमृतभो अध्यावेः अभिप्रेहि दक्षिणतोपभावेहा आवृत्राणि जङ्गना बभूरि जहोमि चे तरुणम् वृद्धो अग्रमुपा या आमन्यो सरथमा रुजन्तो हर्षमाणासो धृजितापरुतः जिग्मेशव आयुधा संशिषा आना अभिप्रयन्तु नरो अग्निरो ओपाः अग्निरिवमन्योत्यषितः सहस्वसे नानीर्नः सहुरे हूतरे शत्रोन् विभजस्ववेदवो जोभिमाः नो विमृधो अनुगस्व अभिमाहादिमस्मे रुजन् मृणङ्ग्र मृणङ्ग्रे हि उग्रन्ते पाजो नन्दारुरुद्रे वशीवशम् नयस एकजत्वम् एको बहू नामसि मन्यपीडितो विषम् विषंविधये संशिशाधि अवृत्तरुक्तया आयुजा वयम् विमन् अङ्घोषम् विजयाय कृषकृदिन्द्र इवानवभ्रवोस्माकम् मन्योऽधिपा भवेह प्रियन्ते नाम सहृ गृणीमसि विद्मातमुत्संयतः बभूथ आभूत्यासहजा वज्रसायकसहो अभिभर्ष्यभिभूत उत्तरम् कृत्वा आनो मन्यो सह मेद्ये एधिमहधनस्य पुरुहूत संसृति संसृष्टम् धनमुभयम् समाकृतमस्तभ्यम् दत्ताम् वरुणश्च मन्योयम् तथा आनाहृदयेषु शत्रवः परा आदितासो अपयतयन्ताम् सत्येनोत्तपिता भो विस्सूर्येणोत्तभिताद्योः दित्यास्तिष्ठन्ति दिवि सोमो अधिश्रितः सोमे एनादित्या बलिनः सोमे एनपृथिवीमही अथो नक्षत्राणामेषामुपस्थे सोम आहितः सोमम् अन्यदेव पिवान्यत्सम् विंशन्त्योषधिम् सो सोमयम् ब्रह्माणो होमितुर्णतस्या स्नादिकष्टः आच्छद्भिधानैर्गुपितो बार्हतैः सोमरक्षितः ्रागुणामिच्छृण्वन्तिष्ठसिनतेः अश्नादिपार्थिवः ताः देव प्रतिबन्ति ततः आप्यायसेवुणाः वायुः सोमस्य रक्षिता समाः नाम्मास आकृतिः तैभ्या आसेदनुते ये एनाराशंसेऽन्योचने सूर्यायाः भद्रमिद्वासोऽगाथयैति बहिष्कृतम् चित्तिरा उपबर्हणम् चक्षुरा अभ्यञ्जनम् यौर्भो विः कोश आसीद्यदयात्सूर्यापतिम् स्तोमाः आसन् प्रतिदयः कुलीरञ्छन्द ओपशः सूर्याया आश्विना आवराग्निरा आसीत् पुरोगवः सोमो अवधोरभवदश्विना मुभावरा सूर्याय्यत्पत्येषम् सन्तीम् मनसा सविता ददात् मनो अस्यान आसीद्यौरा आसीत् पुरच्छतिः शुक्रावनड्वाः आवास्तान्ययाः सूर्यागृहम्भ्यामभि आवा औगावौ ते सावनावितः श्रोत्रम् ते चक्रे आस्तान् देबन्धा आश्चराचरः श्रीरे चक्रे आद्या नो अक्ष आहतः अनो आनहस्तनम् सूर्यारोहत्र यते परिम् सूर्याया आवहतु सवितायमवासृजत् अघासु हन्यन्ते गावोऽर्जुन्योः पर्युह्यते यदश्विना पृच्छवा आनावया आतम् द्विचक्रेण वहतुम् सूर्याया आह विश्वे एदेवा अनु तद्वा आमजानन् पुत्रः पितरा आव्रणीतभूषा यतया आतम् शुभस्पतेव देयम् सूर्यामुप त्वैकञ्चक्रम् वा आमासीत्पथेष्ट्रायतस्थुः ेदे चक्रे सूर्ये ब्रह्माण ऋतुधा विदुः अथैकम् चक्रञ्यद्गुहातरद्धातयद्विदुः सूर्यायै देवेभ्योः मित्राय वरुणाय च ये भूतस्य प्रदे एतसहिदन्तेभ्यो अकरम् नमाः पूर्वापरम् च रतो मायैतौ शिशौ क्रीडन्तौ परिजातो अध्वरम् ्वा अन्यो भुवनाभितष्टऋतोऽङ्न्योऽपि दध्जायते पुनः नवो नवो भवतिरायमानोऽह्नाङ्केतुसामेत्यग्रम् भागम् देवेभ्योऽपि दधात्यायन् प्रचन्द्रमास्तिरते दीर्घमायोः सुखिम् शुकम् सल् बलिम् विश्वरोपम् हिरण्यभरणम् आरोहसूर्ये अमृतस्य लोकणम् स्योनम् प्रत्ये एव हतुम् वृणुष्व उदीर्ष्मातः पतिवतीह्ये एषा विश्वापसु नमसा गीभिरे अन्यामिच्छपि दृषसम् व्यक्ताम् सते एभागो जनुषातस्य विद्धि उदीर्ष्मातो विश्वापसो नमसेणामहेत्वा अन्यामिच्छप्रभर्व्या अम् सञ्जायाम् पत्या आसृजा अनक्षरा ऋजवः सन्तु पन्थायेभिः सखाः योयन्ति नोपदेयम् समर्यमासम्भगो नोनिनीयात्सञ्जास्पत्यम् सुयममस्तु देवाः हृत्वा आवञ्चामि वरुणस्य पाशाद्ये रत्वा बध्नात् सविता सुषेवाः हृतस्य यो नो सुकृतस्य लोकेरिष्टान्वा सहपत्याः दधामि प्रेतो मुञ्जामिनामुतः सुबद्धा ममुतस्करम् यथेयमिन्द्रमे त्वस्वपुत्रा सुभगा सति ऊषा त्वेतो न यतुहस्तगृह्याश्विना आत्त्वा प्रवहतामृथे येन यथासो वशिनी त्वम् विदथमापदासि यः प्रियम् गृहे गार्हपत्या एना प्रत्या आतन्वा हंसंसृजस्वाधारिवरे विदथमापदाथः नीलोहितम् भवति कृत्यासक्तिर्यज्यते एषन्ते अस्या ज्ञातजः पतिर्बन्धेषु बध्यते परा आदेहिषा मुल्यम् ब्रह्मभ्योऽपि भजावसो कृत्यैषा तद्वये भूत्या जायापिशदेपदिम् अश्लीरातनोर्भवतिरुषदीभावया आर्यद्बद्धोवासमङ्गमभिसते ये बद्धश्चन्द्रम् वह नूक्ष्मायम् द्विजरादनु पुनस्तान्यज्ञयाः देवानयम् तु यतः गताः य आसीदन्तिदम्पती सुगेभिर्दुर्गमते एतामभद्रान्तरा आदयः सुमङ्गलेरियम् रघोरिमाम् समेतपश्यत सौभा आज्ञमस्यैदत्तायाथास्तम्भिपरे एतन तृष्ठमेतत्कटुकमेतदपाष्ठवद्विषमन्नैतदत्तरे सूर्याञ्यो ब्रह्मा विद्यात्सैद्रासुयमर्हति आशसनम् विशसनमथो अधिविकर्तनम् सूर्यायाः पश्यरूपाणितारिब्रह्मा तु सुन्धति गृभ्रामि तेऽसौ भगत्वाय हस्तम्मयापत्याः जलजश्चर्यदासाः भगो हर्यवासविता पुरम् धर्मश्चन्ता देवाः ताम् पो ओशन्क्षिवत मामेरयस्वयस्याम् बीजम् मनुष्या यान ऊरूशी विश्रयाः देयस्याः मुषन्तः प्रहराः मषेपम्भ्यमग्रे पर्यवहन् सूर्याम्बहतु ना आसः पुनः पतिभ्यो जायाङ्गा अग्ने प्रजया आसह पुनः पत्नी एवमग्निरदायुषा सह वर्चसा दीर्घायुगस्यायः पतिर्जीवा आदिशरदः शतम् सोमः प्रथमोऽविवेकम् तृतीयो अग्निष्टे परिस्तुलीयस्ते मनुष्यजाः सोमो ओदद्गन्धर्वाय गन्धर्वो ददग्नजे रयिन्द्रपुत्रांश्च आदादग्निर्म ह्यमथो इमाम् इहैव स्तम् मावियोष्टम् विश्वमायुर्वश्नुतम् क्रीडन्तौ पुत्रैर्नत्रभिर्मोदमानौ स्वे गृहे आनः प्रजाञ्जनयतु प्रजापतिराजरसाय समनक्वर्यमा अधुर्मङ्गलीः पतिलोकमाभिशं नो अभवद्विपदेशम् चतुष्पदे अघोरचक्षुरपतिघ्ने शिवापशुभ्यः सुमनाः सुपर्चा आह चतुष्पदे इमान् त्वमिन्द्रमेद्भ्यः सुपुत्राम् सुभगा अङ्कृणो दशाः स्याम् सम्राज्ञीश्वशुरे भव सम्राज्ञी ईश्वश्रुवाम् भव ननान्दरिसम्राज्ञी ईभव सम्राज्ञी अधिदेवृषु समञ्जन्तु विश्वे ए देवाः समापो हृदयानिनौ सम्मा आतरिष्वा सन्धाता समुदे श्री एतधातुनौ अविथवा भव वर्षाणि शतम् सा आक्रन्तु सुव्रता तेजस्वीये च यशस्वे च धर्मपत्नी पतिव्रता बहु पुत्राणि वा च दुःखम् लभे त्वचित् भर्ता देः सोपा नित्यम् भवेद् धर्मपरायः अष्टपुत्रा भवत्पञ्चसुभगाः च पतिंव्रता भर्तुश्चैव पितृर्भ्रातुहृदया आनन्दिनी इन्द्रस्य तु यथेन्द्राणि श्रीधरस्य यथाश्रिया शङ्करस्य यथा गौरी एतद्भर्तुरपि भर्तरि अर्थेर्यथानुसूयास्यात्मसिष्ठस्याप्यरुन्धति कौशिकस्य यथा सति एतथात्मपि भर्तरि ध्रुवै दि पोश्यामयि मह्यन्तदा बृहस्पतिः मया पत्या प्रजावते सन्ध्ये एव शरदः इति अष्टमाष्टके तृतीयोऽध्यायः